हरिः को सहस्रशीर्ष पुरुषः सहस्राक्षत्सहस्रपात् स भूमिम् विश्वतोभृत्वा अद्यतिष्ठद्दशाम् भुराम् पुरुषये वेदघुम् सर्वम् यद्भूतयश्च भव्यम् उतामृतत्वस्य स नः यदन्नेनाधिरोहति महिमा अतो जायागिश्च पूरुषः पादोस्य त्रिपादस्यामृतम् दिवे त्रिपादोद्बुधयेत् पुरुषः पादभवत् पुनः ततो विश्वम् व्यक्रामत् आसनानशनेऽपि अस्माद्विराटजायत विराज अतिपुरुषः स जातो अत्यरिष्ठत पश्चाद्भोमिमतो पुरः यत्पुरुषेण हविषा देवायज्ञमतन्वता वसन्तो अस्यासीदाज्यम् शरद्धविः सप्तास्या सन्परितयः त्रिः सप्तसमिदकृताः देवायद्यज्ञम् तन्भाना अवर्णन् पुरुषम् पशुम् तम् यज्ञम् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यारिषयश्च ये तस्माद्यज्ञात्सर्वभूतः संवृतम् पृषदाज्यम् पशोगस्तागश्चक्रेवायव्यान् आरण्या ग्राम्याश्च ये अस्माद्यज्ञात् सर्वभूतः त्रिरसामानिजग्िरे चन्दागुंसि जग्रे तस्मात् यजुस्तस्मादजायत तस्मादस्वा अजायन्ता एके चोभयादः गावो भजगिरेतस्मात् तस्माज्जाता तस्मा अजाभयः अज्या यत्पुरुषम् यदतुः कतिदाव्यकल्पयन् मुखम् किमस्य कौ बाहु गावोरूपादाच्येते ब्राह्मणस्य मुखमासीत् बाहूराजन्यः कृतः पूरोदस्य यद्वैष्यः पध्यागम् श्रोद्र अजायत चन्द्रमामनसो जातः चक्षोस्तूर्य मुखादिन्द्रश्चाद्रिश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षेष्णाद्य श्रमवर्तथा अभ्याम्भो निर्दिश्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमशस्तु पारे सर्वाणि रूपाणि विजित्य धीरः नामानि कृत्वा विवदन्यदास्ते दाता पुरस्ताद्यमुदा जहार चक्रप्रविद्वान्प्रदिशश्चतस्रः तमेवम् विद्वानमृत इह भवति नान्यपन्ता अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् देहनागं महिमानः स चन्ते यत्र पूर्वे साध्याः सन्ति देवाः अद्य सम्भुतपृथिव्यैरसा तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेदम् पुरुषम् महान्तम् आदित्यवर्णन्तमस परस्तात् तमेवम् विद्वानमृत इह भवति नान्यपन्ता विद्यते जनाय प्रजापतिश्चरधिगर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो, यो देवेव्य आरभति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये ऋतम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् विद्यात् स्य देवासन्वसे श्रीष्यते दे लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अस्मिनौव्याप्तम् इष्टम् मनिषाणा अमुम् मनिषाण सर्वम् मनिषाणा वो वो सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् प्रभुम् विश्वद परमम् नित्यम् विश्वम् नारायणगुम्हरिम् विश्व मे वेदम् पुरुषत्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् ारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायण परम् ब्रह्म तत्त्वम् नारायणः परः नारायणपरो ज्योतिरात्मा नारायण परः यच्च किञ्चिच्च गत् सर्वं दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत् सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कवितुम् समुद्रेन्दम् विश्वसम्भुवम् पद्मकोशप्रदेकाशम् हृदयम् चाप्यतोमुखम् अतो नित्यावि तस्यान्तनाभ्यामुपधितिष्ठति हृदयम् तद्विजानीयाद् विश्वस्याय धनम् महत् सन्ततगम् स्यान्ते सुरगुम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महान् अग्निर्विश्वाचनिर्विश्वतो मुकः सोऽग्रभग्विवदन्धिष्ठन्नाहारमजरः कविः सन्तापयति स्वन्देहमापादत नमस्तकम् तस्य मध्येवन्निसि कारणीयो व्यवस्थितः नीलतो यतमध्यस्ता विद्युल्लेखेव बास्परा नीवारसोकमत्तन्वीपीतापात्यणोपमा कस्यािकाया मध्ये परमात्मा व्यवस्थितः स ब्रह्मा सिवः सन् तत्स्वोऽक्षरः परमस्वरा ऋतघुम् सत्यम् परम् ो त्वरेदम्विरूपाक्षम् विस्वरूपाय वै नमः ओ नारायणाय विद्महे वासुदेवाय धीमहि तन्न विष्णुप्रचोदयात् ओ य विद्महे वासुदेवाय धीमहि तन्ना विष्णुप्रचोदयात् विष्णानुगम्भीर्याणि प्रवचय्य पार्थिवानि विममे रजागम् श्रियो अस्कपायदुत्तरगम् सतस्तम् विचक्रमाणस्ते दोरुगायो विष्णो दराठम श्री विष्णो कृष्टम श्री विष्णोते एष्टोरश्री विष्णोर्द्रुवम ैष्णवमधि विष्णवेत्वा तदस्य प्रियमभिपातो अस्या न नो यत्र ते भयवो मदन्ति गुरुक्रमस्य स हि बन्धुरित्ता विष्णोपदे परमे मध्वमुत्सह रतत् विष्णोस्तपदे ृवानभीमकुचरोगिरिष्टाः यद्ध्योरिषु त्रिषु विक्रमणेषु अधिक्षियन्ति भुवनानि विश्वा परोमात्रया तनुवावृता न ते उपेते विद्मरजसी पृथिव्या विष्णो देवत्वम् परमस्य विद्वे विचक्रमे पृथिवीमेषयेता क्षेत्राय विष्णुर्मनुषे न स्यन् दृवासो अस्य गीरयोजना सह पुरुक्षिदिगुंसुजनिमाचकार पृथिवीमेषयेता च क्रमे सतर्च संमहित्वा प्रविष्णुरस्तु तमसस्तवीयान् अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्याः सप्तदामभिः इदम् विष्णुर्विचक्रमे त्रेदानि तदेपदम् समूडमस्य पागम् सुरे त्रीणि पदा विचक्रमे विष्णुर्गोपा ततो धर्माणि धारयन् कृष्णो कर्माणि पश्यत यतो व्रतानि पश्पसे इन्द्रत्ययोजः सखा तत्कृष्णा परमम् पदगुम् सदा पश्यन्ति सूरयः दिवि वचक्षुरातम् तत् विप्रासो विपर्णवो जाग्रिवाकुम् समिन्दते विष्णोर्यत्परमम् पदाम् हिरण्यवर्णाम् हरिणेम् सुवर्णरजतस्रजा सन्दाम् हिरण्मयेम् लक्ष्मीम् जातवेदो महावः महावहजात वेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् विन्देजम् कामश्वम् पुरुषा नः अश्वभूर्वाम् गदमत्यामस्मिनाथ प्रबोधिनी श्रियम् देवे मुपक्वये देवी, देवी जुढताम् स्मिताम् हिरण्यप्राकारा मात्रालन्ते वृद्धाम् तर्पयन्ति पद्मे स्थिताम् पद्मवर्णाम् त्वामिहो न्द्राम् प्रपाताम् यशसाज्वलन्तीम् श्रियम् लोकेभजुष्टामुदारा ताम् पत्मिनेमीम् शरणमहम् प्रपद्ये लक्ष्मीर्मे नश्यताम् त्वाम् वृणे आदित्यवर्णे तपसौतिजातवनस्पतिस्तवृक्षोत बिल्बः तस्य फलानि तपसानुदन्तु मायान्तराजाश्च भाग्यालक्ष्मी उपैतु माम् देवसधः कीर्तिश्च मणिनाशः रादुर्भतोऽस्मि राक्षेऽस्मिन् कीर्तिमृत्यन्तदातु मे ृत्विपाशामलाम् ज्येष्ठामलक्ष्मीर्नादयाम् अहम् अपोतिमसमृद्धिम् च सर्वान् निर्णत मे गृहात् गन्धद्वारान् दुरादर्शान् नित्यपुष्टाम् प्रदेशिने ीश्वरेकम् सर्वभूतानाम् त्वामि गोपक्वये श्रियम् मनसक्ता ममाकृतिम् वाचः सत्यमश्रीमहि पशूनाम् रूपमन्नस्य मयि श्रेत्रयताम् श्रियम् वासय मे कुले मातरम् पद्ममालिनी आपसृजन्तु स्निग्धा निजिक्ली तमस गृहे निज देवे मातरगृश्रियम् कुले आद्राम् यः करणीम् यष्टिम् पद्ममालिनी चन्द्राम् हिरण्मयेम् लक्ष्मीम् जातवेदो महाभः आर्द्राम् पुष्टरणेम् पुष्टिम् सुवर्णाम् हेममालिनी सूर्याम् हिरण्मयेम् लक्ष्मीम् जातवेदो महाभः ताम् महावह जातवेदो लक्ष्मीमनपगामिने स्याम् हिरण्यम् प्रबोदम् गावदस्योऽस्वानि विन्दयम् पुरुषानहम् पद्मप्रिये पत्मिनि पद्महस्ते पद्मालये पद्मतडायधाक्षी विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मम् मयि सन्निधस्व श्रियैजात श्रिय आ निर्याय श्रियम्बयोजनिदृप्यो ददातु श्रियम्बसा नाम अमृतत्वमायन्वजन्ति सत्यस्त पितापितस्योन् श्रिय एवैनम् तत् श्रियामा ददाति सन्ततमृजा वषकृत्यम् सन्तत्तम् प्रजया पशुभिः ेवं वेद ओ्यै च विद्महे विष्णुपत्न्यै च धीमहि सन्ना लक्ष्मी प्रचोदयात् विद्महे विष्णुपत्न्यै च धीमहि तन्ना लक्ष्मे प्रचोदयात्